हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे युद्धकाण्डे प्रथम श्री श्रीमहादेव वाच यथावैद्भाषितं वाक्यं श्रुत्वा रामो हनुमतः वाचानन्तरं वाक्यम् अचेण मतावृतः कार्यं कृतं हनुमता देवैरपि सुदुष्करम् मनसापीयदन्येन स्मर्तुम् शक्यं न भूतले शतयोजनवितीर्णम् लङ्येत् कयो निधिम् लङ्कां च गुप्ताम् ओ वाधर्षयितुम् क्षमः हनुमता कुतं सर्वम् अशेषतः सुग्रीवस्येदृशो लोके न भूतो न भविष्यति रघुवंशश्च लक्ष्मणश्च कपीश्वरः जानक्या दर्शने नाद्य रक्षिता स्मो हनुमतः सर्वथा सुकृतं कार्यं जानक्या परिमार्गणम् समुद्रं मनसा स्मृत्वा सीदती वनोम कथं नक्रशकिरणं समुद्रं शतयोजनम् लङ्घयित्वा रिपुम् अन्याम् कथं द्रक्ष्यामि जानकीम् श्रुत्वा तु रामवचनम् सुग्रीवप्राह राघवम् समुद्रम् लङ्घयिषामो महानक्र झसा कुलम् लङ्कां च चिन्तां च जघुश्रेट चिन्ता एतान् पश्य महासत्वान् शूरान् वानुरपुङ्गवान् सत्प्रियार्थम् समुद्युक्तान् प्रवेष्टुमपि पावकम् समुद्रतरणे बुद्धिम् कुरुष्व प्रथमम् ततः दृष्ट्वालङ्काम् दशग्रीवो हत इत्येव मन्महे न हि पश्याम्यहम् कञ्चित् त्रिशुलोके ृहीत दनशो यस्ति तिष्ठे दधिको रणे सर्वथा नो जयो राम भविष्यति न सर्वतानि च पश्यामि तथाभूतानि सर्वशः सुग्रेव वचनं श्रुत्वा भक्तिवीर्यसमन्वितम् अङ्गीकृत्या ब्रवीद्रामो हनुमन्तं पुरस्थितम् येन केन प्रकारेण लङ्या मोम अर्णवम् लङ्काश्रूपम् बे ब्रूहि दुःसाध्यम् देव दान वै करिष्यामी कपीश्वरः श्रुत्वा रामस्य वचनम् हनुमान् विनयान्वितः उवाच प्राञ्जलिर्देव यथा दृष्टम् लङ्का दिव्या पुरी देव त्रिकूट शिखरे स्थिता स्वर्णपाप्राकार स्वर्णाटालकसंयुता परिखाभि परिवृता पूर्णाभि निर्मलोदकै नानोपवन शोभाढ्या दिव्यवापिभिरावृता गृहर्विचित्र शोभाढ्यै मणिस्तम्भ पश्चिमद्वारमासाद्य गजवाः सहस्रजः उत्तरे द्वार तिष्ठन्ति शाश्ववाः सपत्तयः तिष्ठन्त्यर्बुदसंख्याका प्राच्यामपि तथैव च रक्षिणो राक्षसा वीरा द्वारं दक्षिणमाश्रितः मध्यकक्षेऽ्यसङ्ख्याता गजाश्वर सपत्तयः रक्षयन्ति सदालङ्काम् नानास्त्र कुशला प्रभो सङ्क्रमैर्विविधैर्लङ्का शतघ्नेभिश्च संयुता एवं स्तुतेऽपि देवेश कृणो मे तत्र चेष्टितम् दशाकस्य चतुर्थ्यांशो मया हत दग्ध्वालङ्काम् पुरीं स्वर्ण प्रासादो दर्शितो मया शतघन्यसङ्क्रमाश्चैव नाशिता मे रघुत्तमः देव त्वद्दर्शनादेव लंका भस्मीकृता भवेत् प्रस्थानं गुरुदेवेश गच्छामो लवणाम्बुधे तीरं सह महावीरै वानरोघै समन्ततः श्रुत्वा नो मतो वाक्यं रघुनन्दनः सुग्रीवसैनिकान् सर्वान् प्रस्थानायाभिनोदय इदानीमेव विजयो मुहूर्ते परिवर्तते अस्मिन् महूर्ते गत्वाहम् लङ्काम् राक्षसङ्कुलम् सप्रकारम् सुदुर्धर्शाम् नाशयामि स रावणाम् अनेषामि च सीतामे दक्षिणाक्षी प्रयातु वाहिनी सर्वा वानराणां तरस्विनां रक्षन्तु यूतपास्नीनाम् <coughs> अग्रे पृष्ठे च पार्श्वयो हनुमन्तम् अथारूह्य गच्छाम्यग्रे गद आरुह्य लक्ष्मणो यातु सुग्रीव तं मया सह गजो गवाक्षो च नरो नील सुखेन च जाम्बवा तथा परे सर्वे गच्छन्तु सर्वत्र सेनाया शत्रुघातिनः इत्याज्ञाप्य हरिन्द्राम प्रतस्थे स लक्ष्मणः सुग्रीव सहितो हर्षात् सेनामध्य गतो विभु वारणेन्द्र निवा सर्वे वानरः कामरूपिणः क्वेरन्त परिगर्जन्तु जग्मुस्ते दक्षिणां दिशम् भक्षयन्तु ययुस्सर्वे फलानि च मधूनि च ब्रुवन्तो राघवस्याग्रे हनिष्याम्योद्ध रावणम् एवं ते वनरश्रेता गच्छन्त्यतुलविक्रमः हरिभ्या मूह्यमानोतौ शुशुभाते रघवत्तमौ नक्षत्रि सेवितो यद्वत् चन्द्रसूर्यो इवाम्बरे अवरुक्त्या पृथिवीं कृत्णां जगाम महती च मुहो प्रस्फोटयन्त पुच्छाग्रान् उद्वहन्तश्च पुछ पादपान् शैरानारोहयन्तश्च जग बुर्मा ऋतवेगतः असङ्ख्यायात सर्वत्र वानरः परिपूरितः दृष्टास्ते जगमरत्यर्थम् रामेण परिपालिता गता च मूर्धिवारात्रम् क्वचिन्ना सज्जतक्षणम् कननानि विचित्राणि पश्यन् मानय सह्ययो ते सह्यम् समतिक्रम्य मलयञ्च तथा अवतीर्य हनुमन्तम् राम सुग्रीवसंयुतः सवेलाभ्यासमासाध्य रामो सर्वे समुद्रम् मकरादयम् इतो नो निरुपाये न वानरः अत्र श्रुत्वा रामस्य वचनं सुग्रीव सागरान्तिके सेनाम्न्यवेशय रक्षितां कपिकुञ्जरैः ते पश्यन्तु विषे दुस्तम् सागरं भीमदर्शनम् महोन्नतरङ्गाढ्यम् भीमनक्र भयंकरम् अगाधं गगनाकारम् सागरं वीक्ष दुःखिता करिष्याम कथं घोरम् सागरं वरुणालयम् हन्तव्योऽस्माभिरद्यैव रावणो राक्षसाधमः इति चिन्ता कुला सर्वे रामपार्श्वे व्यवस्थिता राम, राम सीतामनुस्मृत्य दुःखेन महतावृतः विलप्य जानकिं सीताम् बहुधा कार्यमानुषः अद्वितयचिम पर रामस्य युजा स्वस्व तुृशति दुखादी कि मुतानम दुख हर्ष भय क्रोध लोभ मोह मादय अन्यान लिंगान्येता कुत सी देहाभिमानिनो दुःखम् न देहस्यचिदात्मनः सम्प्रसादे द्वयाभावात् सुखमात्रं हि दृश्यते बुद्ध्याद्यभावात् संशुद्धि दुःखं तत्र न दृश्यते अतो दुःखादिकं सर्वं बुद्धेरेव न संशयः रामः परात्मा पुरुष पुराणो नित्योदितो नित्यसुखो निरीह तथापि माया गुणसङ्गतोऽसौ सुखीव दुःखेव विभाव्यते बुधै इति श्रीमद् ध्यात्मरामायणे उमामेश्वरसंवादे युद्धकाण्डे प्रथमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु